देवी अथर्वशीर्षम् श्रीगणेशाय नमः ओम् सर्वे वै देवादेवीमुपतस्थुः कासि त्वम् महादेवीति सा ब्रवीदहम् ब्रह्मस्वरूपिणी मत्तः प्रकृतिपुरुषात्मकम् जगत् शून्यम् चाशून्यम् च अहमानन्दानानन्दौ अहम् विज्ञानाविज्ञाने अहम् ब्रह्मा ब्रह्मणि द्वे ब्रह्मणि वेदितव्ये गिरिजाधर्मणि श्रुतिः अहम् पञ्चभूतानि अहम् पञ्चतन्मात्राणि अहमखिलम् जगत् वेदोऽहमवेदोऽहम् विद्याहमविद्याहम् अजाहमनजाहम् अधश्चोर्ध्वम् च निर्यक्षाहम् अहम् रुद्रेभिरवसुभिः सरामि अहमादित्यैनुत विश्वदेवैः अहम् मित्रावरुणा बुभौ बिभरमि अहमिन्द्राग्नि अहमश्विना उभौ अहम् सोमम् द्ष्टारम् भगम् दधामि अहम् विष्णुमुरक्रमम् ब्रह्माणमुत प्रजापतिम् दधामि अहम् दधामि द्रविणम् भविष्मते सुप्राप्ते सुव्रते अहम् राज्ञी सङ्गमनीवसूनाम् चिगुतृषी प्रथमायज्ञियानाम् अहम् सुवेपितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे य वेद स सम्पदमाप्नोति ते देव अब्रुवन् नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मता तामग्निवर्णाम् तपसा ज्वलन्ति भैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीम् शरणं प्रपद्या महे सुरान्नाशयित्र्यै ते नमः देवीम् वारमजनयम् तदेवास्ताम् विश्वरूपाः प्रसवो सानो मन्द्रेश भूर्जम् दुहानाथेऽनुर्वाकस्मानुपसुष्टुतै तु कालरात्रीम् ब्रह्मस्तुताम् वैष्णवीम् स्कन्दमातरम् सरस्वतीमदितिम् दक्षदुहितरम् नमामः आवनाम् शिवाम् महालक्ष्मी विद्महे सर्वशक्त्यै च धीमहि तर्णो देवी प्रचोदयात् करितिह्यजनिष्टदक्षया दुहिता तव ताम् देवा अन्वजायन्तभद्रा अमृतबन्धवः कामो योनिःकमला वज्रपाणिर्गुहाहंसा मातलिस्वाभ्रमिन्द्रः पुनर्गुहासकला माजया च पृथक्लेशा विश्वमातादिविद्याः एषात्मशक्तिः एषा विश्वमोहिनी पाशाम् कुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवम् वेदशोकम् तरति नमस्ते भगवति मातरस्मान्पाहि सर्वतः सैषा वैष्णव्यष्टौ बसवः सैषैकादश रुद्राः सैषा द्वादशादित्याः सैषा विश्वे असोमपाश्च सैषा यातु धाना असुरारक्षांसि पिशाच यक्षसिद्धाः सैषा सत्वरजस्तमांसि सैषा ब्रह्मविष्णुरुद्ररूपिणी सैषा प्रजापतीन्द्रमनवः सैषा ग्रहनक्षत्रज्योतिः कराकाष्ठादिविश्वरूपिणी तामहम् प्रणौमि नित्यम् पापापहारिणीम् देवीम् भुक्तिमुक्तिप्रदायिनीम् अनन्ताम् विजयाम् शुद्धाम् शरण्याम् सर्वदाम् शिवाम् वियदाकारसंयुक्तम् वीतिहोत्रसमन्वितम् अर्धेन्दुलसितम् देव्याः बीजम् सर्वार्थसाधकम् एवमेकाक्षरम् मन्त्रम् यदयः शुद्धचेतसः ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः वाङ्मया ब्रह्मभूस्तस्मात् षष्ठवक्त्रसमन्वितम् सूर्यो वाम श्रोत्रबिन्दुसंयुक्ताष्टातृतीयकम् नारायणेन सम्मिश्रः वायुश्चाधारयुक्ततः विच्चेनवार्णकोडस्य महानानन्ददायकः हृत्पुण्डरीकमध्यस्था प्रातः सूर्यसमप्रभा पाशाङ्कुशधराम् सौम्या वरदाभयहस्तका त्रिनेत्राम् रक्तवसनाम् भक्तकामधुहम् भजे भजामि त्वाम् महाभयविनाशिनि महा महादारिद्र्यशमनि महाकारु्यणी यूप्रदो न जाना तस्दुच्य अे अो न लभ्यस्माु्यम नोपल्यस्ुच्य अलक्षा यननम नोपल्यस्माुच्य अजा एक सर्वते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते अनेका अत एवोच्यते ज्ञेयानन्तालक्ष्याजैका नैका मन्त्राणाम् मात्रका देवी शब्दानाम् ज्ञानरूपिणी ज्ञानानाम् चिन्मयातीता शून्यानाम् शून्यसाक्षी यस्याः परतरम् नास्ति सैषा दुर्गा प्रकीर्तिता ताम् दुर्गाम् दुर्गमाम् दुर्गाम देवी दुराचारविघातिनी नमामि भवभीतोऽहम् संसारार्णवतारिणीम् इदमथर्वशीर्षम् योधीते स पञ्चाथर्वशीर्षफलमाप्नोमि न ज्ञात्वा योर्चाम् स्थापयति शतलक्षम् प्रजप्तापि नार्चा शुद्धिम् च विन्दति शतमष्टोत्तरम् चास्य पुरश्चर्याविधिस्मृतः दशवारम् पठेद्यस्तु सद्यः प्रमुच्यते महादुर्गाणि तरति महादेव्याः प्रसादतः सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो अपापो भवति निशीथे तुलीयसन्ध्यायाम् जप् वाक्सिद्धिर्भवति नूतनायाम् प्रतिमायाम् जप्त्वा देवतासान्निध्यम् भवति भौमाश्विन्याम् महादेवी सन्निधौ जप्त्वा महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् इति देव्यधर्वशीर्षम् सम्पूर्णम्